विदुरौवाच गान्धारराजः शकुनिर्विशाम्पते कृतहस्तोमताक्षः विविंशतिश्चित्रसेनश्च राजा, राजा सत्यव्रतः पुरुमित्रोजयश्च युधिष्ठिर उवाच महाभयाः कितवाः सन्निविष्टा मायोपधा देवितारोऽत्र सन्ति धात्रातु दिष्टस्य वशे किलेदम् सर्वं जगत्तिष्ठति स्वतंत्रं। नाहं नाहम् राज्ञो धृतराष्ट्रस्य शासनान्न गन्तुमिच्छामि कवे दुरोदरम् इष्टो हि पुत्रस्य पिता सदैव तदस्मि कर्ता विदुरात्थमा यथा न शकुनिना देविताहम् न चेन्माम् जिष्णुराह्वयिता सभायाम् आहूतोऽहम् न निवर्ते कदाचित् तदाहितम् शाश्वतम् वैव्रतम् मे वैशम्पायन एवमुक्त्वा विदुरम् धर्मराजः प्रायात्रिकं सर्वमाज्ञाप्यतूर्णम् प्रायाच्छ्वो भूते सगणः सानुयात्रह। सहस्त्रीभिर्द्रौपदीमादिकृत्वा दैवं हि प्रज्ञां मुष्णाति चक्षुस्तेज इवापतत् धातुश्च वशमन्वेति पाशैरिव नरः सितः इत्युक्त्वा प्रययौ राजा सः समाह्वानमरिन्दमः यत्तमास्थाय वाईकथंतस्था परवीर परौ पातृ सह पांडव